ततस्त गिरीश्रेष्ठे दे गेव्राह विधिवत्त्त्पत नर्षभ वसीष्ठेनाभ्युातस्म धराधरे सो काम यतराजर्षि सह भार्य ततपुरे च राष्ट्रे वनूपव आदिदेश महीी पलस्तमेविव तदा नृपतिभ्युाप्य वसीषथापचक्रमे सोथ राज गिस्ं विजहारारो यथा ततो द्वादश वर्षाणि काननेषु वनेषु च रेमे तस्मिन् गिरौ तथैव सह भार्यया तस्य राज्ञः पुरे तस्मिन् समा द्वादश सत्तम नव वर्ष सहस्राक्षो राष्ट्रे चैवास्य भारत ततस्तस्यामनावृष्ट्याम् प्रवृत्तायामरिन्दम प्रजाः क्षयमुपाजग्मुः सर्वाः तस्मिंस्तथाविधे काले वर्तमाने सुदारुणे नावश्यायः पपातोऽर्व्याम् ततः सस्यानि नारुहन् ततो विभ्रान्त मनसो जनाः क्षुद्भय पीडिताः गृहाणि सम्परित्यज्य बभ्रमः प्रतिशोदिश ततस्तस्मिन् पुरे राष्ट्रे त्यक्तदार परिग्रहाः परस्परमर्यादाः क्षुधार्ता जघ्निरे जनाः तत्क्षुधार्तैर्निराहारैश्चवभूतैस्तथानरैः अभवत्प्रेतराजस्य पुरम् प्रेतैरिवावृतम् ततस्तत्तादृशम् दृष्ट्वा स एव भगवान् ऋषिः अभ्यवर्षत धर्मात्मा वसिष्ठो मुनिसत्तम तम् च पार्थिवशार्दूलमानयामास तत्पुरम् तपत्या सहितम् राजन् विशितम् शाश्वती समा ततः प्रवृष्टस्तत्रासीद्यथापूर्वम् सुरारिहा तस्मिन् नृपतिशार्दूले प्रविष्टे नगरम् पुनः प्रववर्ष सहस्राक्षः जनयन् प्रभुः ततः स राष्ट्रम् परयामुदा तेन पार्थिव मुख्येन भावितम् भावितात्मना ततो द्वादश वर्षाणि पुनरीजेन राधिपः तपत्या सहितः पत्न्या यथा शच्यामरुत्पतिः गन्धर्वौ एवमासीन महाभागा तपती नाम पौर्विकी तव वैवस्वती पार्थतापत्यस्त्वम् ययामतः या तस्याम् सञ्जनयामास कुरुम् संवरणोऽ नृपः तपत्याम् तपताम् श्रेष्ठतापत्यस्त्वम् ततोऽर्जुन कुरोद्भवा यतो यूयम् कौरवाः कुरवस्तथा पौरव आजमीढाश्च भारता भरतर्षभ तापत्यमखिलम् प्रोक्तम् वृत्तान्तम् तव पूर्वकम् पुरोहितमुखा योऽयम् भुङ्ध्वम् वै इति श्री महाभारते आदिपर्वणि चैत्र रथ पर्वणि